अथ मूर्तिरहस्यम् अरिसृवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दया दुता पूजिता भक्त्या वशीकुर्याज्जगत्त्रयं कनकोत्तमकान्ति सा सुकान्तिकनकाम्बरा देवी कनकवर्णाभा कनकोत्तमभूषणां कमलाङ्कुशपासाद्यै अलङ्कृतचतुर्भुजाम् इन्दिरा कमलालक्ष्मी सा श्रीरुक्माम्बुजासनां या रक्तदन्तिका नाम देवी प्रोक्ता मया नभं तस्या स्वरूपं रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा रक्तायुधा रक्ता रक्तनेत्रा रक्तकेशातिभीषणा रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका पतिं नारी वानुरक्ता देवी भक्तं भजे जनं वसु मेरो युगुलस्तनी दीर्घौलम्बावति स्थूलौ तावतिव मनोहरौ कर्कशावति कान्तौ तौ सर्वानन्दपयोनिधि भक्तान् सम्पायद्येद् देवी सर्वकामदुघौस्तनौ खड्गं पात्रं च मूशलं लाङ्गलं च बिभर्ति आख्याता रक्तमुण्डा देवी योगेश्वरीति च अनया व्याप्तमखिलं जगस्वास्थावरजङ्गमम् एवं मां य पूजयेद्भक्त्या स व्याप्नोति चराचरं भुक्त्वा भोगान् यथा देवी सायुज्यमाप्नुयात् अधीते य इमं नित्यं रक्तदन्त्या वपुस्तवं तं सा परिचरे देवि पतिं प्रियमिवाङ्गना साकम्भरी नीलवर्णा निलोत्पलविलोचना गम्भीरनाभिस्त्री नलिविभूषि ततनूदरी सुकर्कष समोत्तुङ्ग वृत्तपीनघनस्तने मुष्टिं श्रीमुखापूर्णं कमलं कमलालया पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् काम्यानन्तसरे युक्तं क्षुत्रिं मृत्युभयापहं कार्मुकं च स्फुरन्तान्ति बिभ्रती परमेश्वरी शाकम्भरी शताक्षी सा शैव दुर्गा प्रकीर्तितां विशोकादुष्टदमणि समणि दुरितापदाम् उमा गौरी सती चण्डी कालिका सा च पार्वती शाकम्भरीं सुवन्ध्यायन् जपन् सम्पूजयन्नमन् अक्षय्यमस्नुते शीघ्रम् अन्नपानामृतं फलं धीमापि नीलवर्णाशा द्रष्टा दशनभाशुरा निशाललोच विशालोचनारारी वित्तपीनपयोधरा चन्द्रहासं च दमरुं शिरःपात्रं च बिभ्रति एकवीराकालरात्रिः स कामदासुता तेजो मण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभे चित्रानुलेपना देवी चित्रदाभरणभूषिता चित्रभ्रमरपायीसा महामारी गीयते इत्येतावृत्तयो देव्या याख्यातावसुधाप जगन्मातुश्चण्डिकायाः कीर्तिता कामधेनवः इदं रहस्यं परमं नवाच्यं वाच्यं कस्यचित् त्वया व्याख्यानम् दिव्यमूर्तीनाम् अभीष्टफलदायकम् तस्मात् सर्वप्रयत्नेन देवीं जपनिरन्तरं सप्तजन्मार्जितै घोरै ब्रह्मत्यासमैरपि पाठमात्रेण मन्त्राणां मुच्यते सर्वकल्विषये देव्या ध्यानं मया ख्यातं गुह्याद्गुह्यतरं महत् तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् एतस्यास्त्वं प्रमाप्रसादेन सर्वमान्यो भविष्यसि सर्वरूपमयि देवी सर्वं देवीमयं जगत् अतोऽहं विश्वरूपां तां नमामि परमेश्वरी नमामि परमेश्वरी ॐ श्रीदुर्गादिव्यै नमः